अथ एकोनविंशत्यधिकशततमोऽध्यायः वैशम्पायन उवाच तत्रापि तपसि श्रेष्ठे वर्तमानस्य स वीर्यवान्सिद्धचारणसङ्घानां बभूव प्रियदर्शनः शुश्रूषुरनहंवादी संयतात्मादितेन्द्रियः स्वर्ग गंत पराक्रा स्न वीरे भारत किद्राता कवत्सा ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् स तु कालेन महता प्राप्य निष्कल्मषं तपः ब्रह्मर्षिसदृशः पाण्डुः बभूव भरतर्षभा अमावास्यां तु सहिता ऋषयः संशितव्रताः ब्रह्माणं द्रष्टुकामास्ते सम्प्रतस्थुर्महर्षयः सम्प्रया पाण्डुर्वचनमब्रवीत् भवन्तः क्व गमिष्यन्ति ब्रूतमेव दताम्बराः ऋषय मवायो महानद्य ब्रह्मलोके महात्मनां देवानां च ऋषीणां च पितॄणां च महात्मनां वयं तत्र गमिष्यामो द्रष्टुकामः स्वयं भुवं वैशम्पायन उवाच पाण्डुरुत्थाय सहसा गन्तुकामो महर्षिभिः स्वर्गपारं तिर्षुः स शतशृङ्गादुदङ्मुखः प्रतस्थे सह पत्नीभ्याम् अब्रुवंस्तं च तापसाः उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः दृष्टवन्तो गिरौ रं ये दुर्गान् देशान् विमानशतसंबाधां गीतस्वरनिनादिताम्